अत <laughs> गणपतिस्तवः ah <haven> <inaudible> अजं निर्विकल्पं निराकारमेकम् निरानन्दमानन्दमद्वैतपूर्णम्परं <laughs> निर्गुणं निर्विशेषं निरीशम् परब्रह्मरूपं गणेशं भजेम गुणातीतमानं चिदानन्दरूपं चिदाभासकम् सर्वगमज्ञानगम्यम् ेयमाकाशरूपम् परेशम् परब्रह्मरूपम् गणेशम् भजेम जगत्कारणम् कारणज्ञानरूपम् सुरादिम् सुखादिम् गणेशम् गुणेशम् जगद्व्यापिनम् विश्ववन्द्यम् सुरेशम् परब्रह्मरूपम् गणेशम् भजेम रजो योगतो ब्रह्मरूपम् श्रुतिज्ञम् सदा कार्यसक्तम् हृताचिन्त्यरूपम् जगत्कारणम् सर्वविद्यानिधानम् परब्रह्मरूपम् गणेशम् नताः स्मः सदा सत्ययोग्यम् मुदा क्रीडमानम् सुरारीम् हरन्तम् जगत्पालयन्तम् अनेकावतारम् निज ज्ञानहारम् सदा विश्वरूपम् गणेशम् नमामः तमो योगिनम् रुद्ररूपम् त्रिनेत्रम् जगद्धारकम् तारकम् ज्ञानहेतुम् अनेकागमेश्वम् जनम् बोधयन्तम् सदा सर्वरूपम् नमस्तो महारं नमस्तोमहारम् जना जनाज्ञानहारम् त्रयीवेदसारम् परब्रह्मसारम् मुनिज्ञानकारम् विदूरे विकारं सदा ब्रह्मरूपम् गणेशम् नमामः विजै औषधिस्तर्पयन्तम् कराज्ये सरोघान् ेषाम् सुशान्तापहारम् द्विजेशम् शशाङ्कस्वरूपम् गणेशम् नमामः प्रकाशस्वरूपम् नमो वायुरूपम् विकारादिहेतुम् कलाधारभूतम् अनेकक्रियानेकशक्तिस्वरूपम् सदाशक्तिरूपम् गणेशम् नमामः प्रधानस्वरूपम् महत्तत्त्वरूपम् धराचारि रूपम् जिगेशादिरूपम् असत् सत्स्वरूपम् जगद्धेतुरूपम् सदा विश्वरूपम् गणेशं नता स्वाहाये मनस्थापयेदङ्घ्रियुग्मे स नो विघ्न सङ्घात पीडां लभेत रसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वान्तपीडां कथं वा लभेत वयं रामिता सर्वथा ज्ञान योगादलब्धस्तवाङ्घ्रि बहून् वर्षभोगान् यानीमवाप्तस्तवैव प्रसादात् प्रपन्नान् सदा पाहि विश्वम्भराद्य एवम् सुरो गणेशस्तु सन्तुष्टो भू महामुने कृपया परयोपेतः अभिघातुमुपक्रमे